आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा उद्यानानि कुबेरस्य समानि विषमाणि च महानदीनि तम्बांश्च गहनान् गिरिगह्वरान् निर्वृक्षमृगपक्षिणः सन्ति क्वचिन्महादर्यो दुर्गा काशीद्दुरा सदाः नातिक्रामेतपक्षीयान् कुत एवेतरे मृगाः वायुरे को सिद्धाश्च परमर्शयः गच्छन्त्यौ शैलराजेस्मिन् राजपुत्र्यो कथं त्वमे न सीदेतामदुःखार्हे मागमो भरतर्षभा पाण्डुरुवाच अप्रजस्य महाभाग न परिचक्षते स्वर्गे तेनाभितप्तोऽहम् अप्रजस्तु ब्रवीमिवः पितर्यार्दृणादनिर्मुक्तः तेन तप्ये तपो धनाः देहनाशे ध्रुवो नाशः पितृणामे शनिश्च यः ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि पितृदेवर्षिमनुजैः देयं तेभ्यश्च धर्मतः एतानि तु यथा कालं यो न मानवः न तस्य लोकास्सन्तीति प्रतिष्ठितं यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन् पुत्रैः श्रद्धैः पित्रंश्चापि आन्द्रशंसेन मानवान् ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः त्रयाणामितरेषां तु नाश आत्मनि इदानीमस्मितापसाः इह तस्मात् प्रजाहेतोः प्रजायन्ते नरोत्तमाः यथैवाहं पितुः क्षेत्रे जातस्तेन महर्षिणा तथैवास्मिन् मम क्षेत्रे कथं वै सम्भवेत् प्रजा